गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टी नैन् क उवाच ततोदेवान्तकोऽव विस्मितो तर्कयत्तदा यथा तथा मया माया क्रियतेस्य निवृत्तये तदा तथाप्ययं बालो दर्शयत्येव पौरुषम् कदायं निधनं यायात् कदा स्वस्ये गतश्रमः इत्येवं चिन्तयाविष्ठो धनुःसज्यमधाकरोद विससर्ज विनायके ससायको बाणवर्षमनन्दं कृतवान् विभौ शक्रिं च चा निर्ममेघोरां त्रैलोक्यग्राससाहसां ददर्श विघ्नराजस्ता तदङ्गे दैत्यपुङ्गवं वर्षन्तं शरजालानि तीक्ष्णानि सुबहून्यपि तदोष्ट सिद्धयशोमुीय बलवत्तरं दधृस्तां सहसा शक्तिमानिन्युस्तां विनायकम् आनीयमाना सा हस्तान् निःसृत्याथ पलायिता रोषात्ताभिर्दैत्यपदिरानायिष कजग्रपाद अणिमानं तदो दैत्योजखान मुष्टिना दृढं मुष्टिकादं समासाद्य मूर्च्छिता निपपादः लखिमा गरिमा चाध तं महासुरं यावल्लता प्रहारैस्तु निजघ्नोस्तावदेव हि प्रधक दैत्यन विधृद वेगाचर पृथक् पृथक याल पृथ्वी निसृतास्तावताम्यूदिस् जघ्नतुस्थं तदो बलाद पपादभूदले दैत्यो वमन्नग्निं मुखात् तदः क्षणाल्लभ्यतदसंज्ञामारुरोहयं दृढं शस्त्रपाणिर्वायुवेगो निजखानविनायकं दृढासि खादादेवोध किञ्चिन्मूर्च्छामवाप्तवान् निमेषात्सु विधानो भूदधा वैत्यनायकं हिरण्यकशिपुं विष्णुर्यदा वृत्रं शचीपतिः mm. शरं च कमलं पाशमङ्गुशं च च दुःखरैः बिभ्राणशुशुभे वीरश्रिया परमया ज्वलन् गर्जित्वा खनेवो जखान दैत्यपुङ्गवं चतुर्भिरायुधैर्वेगान्न चाल तथापि सह आश्चर्यं परमं प्राप दृष्ट्वा शस्त्रं वृथार्थतां वज्रात्सारतरमेने दैत्यदेहं विनायकः तदो देवो राक्षसस्य धूम्राक्षस्य महायुधं वज्रं सञ्चूर्णयन् सूर्यमण्डलादागतं तु यद् तदा दायाहनक्तेन दैत्यं तच्च तथाभवद नरोमापि चचालास्य तदप्याश्चर्यमुत्तमं तदो नानाशस्त्रपादैर्जग्नतुस्तौ परस्परं मस्तके पृष्ठभागे च हृदये बाहुमण्डले तदो शस्त्रविखादेन जादो वन्यर्वसुन्धराम् ददाह न च तौ भिदौ युधमेवान्वपद्यतम् निशीधेतमसा व्याप्ते विरामं न समीयधुः तद कृत्रिमदीप्त्या तौ परस्परमयुध्यतां ततो मायां रौद्रके दुश्चक्रे सुरविमोहिनीम् अदितिं सुन्दरां कृत्वा दैत्यहस्ते न्यवेशयद पद्मनेत्रां पीनकुचां कुङ्कुमारक्तमालिकां मुक्तहारां सुवलयां दिव्यां शुकविराजितां लावण्यलहरीं रुक्म विलसद् दिव्य कञ्चुकाम् विनायकं निरीक्ष्यैव रुरोद दैत्यहस्तगा धावधा वेदितं प्राहत्रासिताहं किमीक्ष्यसे एवं ब्रुवत्या दैत्यो बलाद अंशुकं च चकर्षास्य मदेनाविष्टचेदसा उच्चैरुवाच देवं सा क्वगदा पुरुषार्थता लोकलज्जाभयान्मां त्वं निःस्नेहाशु विमोचय विनायको निरीक्ष्यैदां बाष्पकण्ठोरुषान्वितः न सस्मारविचारं स शस्त्राणि जगदुकराद शुशोचमममदेयं कथमस्य परे गदा दिजन्मयस्य जननी गदावस्थां दुरत्ययां देवानां जननी चैव सम्प्राप्ता दुष्टसङ्गतिम् काशिराजोऽपि तं दृष्ट्वा शोचन्तं गणनायकम् स्वयं शुशोचबहुधा लोकोऽपि नगरे स्थितः तदो देवान्तको देवं जगर्हे बहुधा तदा दिग्जन्मपौरुषं तेद्य न त्यजसे कथं निर्लज्जोऽसि मुखं लोके दर्शयस्येव योऽधुना त्वत्समीपं हनिष्येस्याः शिरकायात् खलाधुना क उवाच इति तं निष्ठुरं वाक्यं श्रुत्वा देवो विनायकः तर्कयामास मनसि सत्यमेव वदत्ययं प्राणत्यागाय किं कार्यं विषं वा पाशबन्धनम् उदरे शस्त्रसङ्घातः कार्यो वा मृत्युभेदवे एं यावच्चिन्तयदे दुःखशोकसमन्वितः वदवाणी स शुश्र वच विनायक सोवाच मयेयम्रजिदुष्टबुद्धिनावे हिण यू जगी निजुं तत सवध ज्ञात्वा मायामयीं तुतां जहर्षचमहाबुद्धिर्दैत्यं हन्तुं प्रचक्रमे स्मृत्वा च तद्वरं शम्भुदत्तं तस्मै दुरात्मने उषकालं विना सर्वशास्त्रास्त्राणि वृथा एवं तस्य वरं ज्ञात्वा प्रादर्युद्धाय निर्ययौ दैत्यौ पि पुरतो पश्यद्युद्धान् देदं विनायकं आरक्तनयनं भ्राजन्मकुडं कुण्ढलोज्ज्वलम् दन्तप्रकाशरुचिरं मुक्ता दामविभूषितं दिव्याम्बरं सुधामानं व्योमस्पृक् पुष्करं विभुं दृष्ट्वा देवान्तकोरूपं विभाय च विसस्मरे अर्थं नरशारीरं किमर्थं गजसमं परं। इति श्री गणेशपुराणे क्रीड़ाखंडेको नमोध्याय